उवाच समः तेजः ब्रह्माणम् परमेष्ठिनम् कृतम् मयेदम् भगवन् काव्यम् परम ब्रह्मन् वेद मया साङ्गोपनिषदाञ्चैव वेदानाम् विस्तरक्रिया क्रिया इतिहास पुराणानाम् उन्मेषम् निर्मितम् च यत् भूतम् भविष्यञ्च त्रिविधम् काल संयितम् विविधस्य च धर्मस्य ह्याश्रमाणाञ्च लक्षणम् चातुर्वर्ण्यविधानञ्च पुराणानाञ्च कृत्स्नश तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ग्रह नक्षत्र च युगैः सह रुचो यजूंषि सामानि वेदाध्यात्मम् तथैव च दानं चिकित्सा तथा हेतुनैव समम् जन्म दिव्यमानुष चैव पुण्यानाम् देशानाम् चैव कीर्तनम् नदीनाम् पर्वतानाञ्च वनानाम् सागरस्य च पुराणाम् चैव दिव्यानाम् कल्पानाम् युद्ध वाक्यजाति विशेषाश्च लोक यात्राक्रमश्च यः यच्चापि सर्वगम् वस्तु तच्चैव प्रतिपादितम् परम् न लेखकः कश्चिदेतस्य भुवि मुनि सञ्चयात् मन्ये श्रेष्ठतरम् त्वाम् वै रहस्य ज्ञान वेदनात् जन्म प्रभृति सत्याम् तस्मात् काव्यम् भविष्यति अस्य काव्यस्य कवयो न समर्था विशेषणे विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः काव्यस्य लेखनार्थाय गणेशः मुने सौतिरुवाच एवमाभाष्यतम् ब्रह्मा जगाम स्वम् निवेशनम् ततः स्मृतमात्रो गणेशानो भक्तचिन्तित पूरकः तत्रा यतस्थितः पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ लेखको भारतस्यास्य भवत्वं गणनायक मय एव प्रोच्यमानस्य मनसा कल्पितस्य च श्रुत्वै तत् प्राह यदि मे लेखनीक्षणम् लिखतोनावतिष्ठेत तदा स्याम् लेखको ह्यहम् व्यासोऽप्युवाच तम् देवम् अबुध्वामा लिख तदा चक्रे मुनिर्गूढम् कुतूहलात् यस्मिन् प्रतिज्ञया प्राह अष्टौ श्लोक अष्टौ श्लोक च अहम् वेद्मिशुको वेत्ति सञ्जयो वेत्ति वा न वा तत् मुने भेत्तुम् न शक्यतेऽर्थस्य गूढत्वात् प्रसृतस्य च सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन् तावच्चकारव्यासोऽपि श्लोकान् अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकम् धर्मार्थ काममोक्षार्थैः समास व्यास तथा भारतसूर्येण नृणाम् विनिहतम् पुराण पूर्ण चन्द्रेण श्रुति ज्योत्स्नाः प्रकाशिताः नृबुद्धि कैरवाणाञ्च कृतमेतत् इतिहास प्रदीपेन मोहावर्ण घातिना लोक गर्भगृहम् कृत्स्नम् यथावत् सम्प्रकाशितम् सङ्ग्रहाध्याय बीजो वै पौलो मास्तीक मूलवान् सम्भव पुष्पैः शल्य स्त्रीपर्वैशीक विश्रामः शान्तिपर्व महाफलः अश्वमेधामृतरसस्त्वाश्रमस्थान संश्रयः मौसलश्रुति सङ्क्षेपः शिष्ट द्विजनिषेवितः सर्वेषाम् कविमुख्यानाम् उपजीव्यो भविष्यति पर्जन्य इव अक्षयो भारत